एनावद् दशकम् कुरुक्षेत्रसमागमम् क्वचिदतत्तपनोपरागकाले पुरिनिदत्कृतवर्मकामसूनो यदुकुलमखिलावृतः सुतीर्थम् समुभगतोऽसि समन्तपञ्चकाख्यम् बहुतरजनताहिताय तत्र पुनन् विनिमज्जतीर्थतोऽयम् विजगणपरिमुक्तवित्तराशि सममिलता कुरु पाण्डवादिमित्रै तव खलु दयिता जनै समेता द्रुपदसुता त्वयिघाटभक्तिभार तदुदित भवदाकृतिप्रकारै अतिमुते तदनुच भी तदनु च भगवन्निरीक्षगोपान् अधिकुतुकातुभगम्यमानयित्वा चिरतरविरहादुराङ्गरेक पशु भवदूसरसम् त्वमन्वयासि सभदि च भवदीक्षणोत्सवेन प्रमुदितमानकृदाम् निदम्बिनीना अधिरसपरिमुक्तकञ्चुलीके परिचितहृदयत्तरे कुचे न्यलैषि रिभुजनकलहै पुनः पुनर्मे समुपगदैर्यति विलम्बनाभूत् इति कृतपरिरम्भणे त्वयीद्राक् अदिविवचा खलुरादिखानिलिल्ये अबकतविरगव्यतास्तदाता रगसि विधाय दतात तत्त्वभूतम् परमसुखचितात्मगोखमात्मेति उदयतु वस्फुटमेव चेतसीति सुकरसपरिमिष्ट्रुतो वियोग किमपि पुरा भवदुत्तवोपदेशे समभवदमुतः परम् तु तासा परमसुकैक्यमयी भवत् विचिन्ता मुनिवरनिवहैस्तवातपित्रा वा दुरितसमायशुपानि त्वयि सति किमिदम् शुभान्तरैरिति रह उरुहसितैरभियाजितस्तदासो सुमहतियजने विधायमाने प्रमुदितमित्रजने सखैव गोपा यदुजनमकितास्त्रमासमात्रम् भवदनुशङ्करसम्पुरेव बेजु व्यपगमसमये समेत्य राधाम् दृढमुपगोह्य निरीक्ष वीतकेधाम् प्रमुदितकृत्यपुरम् प्रयात पवनपुरेश्वर पाहि माम् गदेव्य भज गोविम् गोविन्दम् भज मूटमते